श्रीहरये नमः अथ द्वादशोऽध्यायः मैत्रेय निवृत्तं प्रतिबुद्ध्य वैससाद् अपेतमन्युं भगवान् धनेश्वरः तत्रागतश्चारणयक्षकिन्नरैहेर्संस्तूयमानोऽव्यवदत्कृताञ्जलिम् भो भो क्षत्रियधायाध परितुष्टोऽस्मितेनघ यस्त्वं पितामहादेश वैरं दुस्तजमत्यजः न भवानवदीत्याक्षा न यक्षाप्रातरं तव काल एव हि भूता न प्रभुरप्यय भावयोः अहं त्वमित्यपार्थधीरज्ञानात् पुरुषस्य हे स्वाप्नी वा यध्यानात्ययाभन्त विपर्ययो तद्गच्छ्रुवभद्रं ते भगवन्तम् अधोक्षजं सर्वभूतात् त्मभावेन सर्वभूतात्मविग्रहम् भजस्व भजनीयाङ्ग्रेम् युक्तं विरहितं शक्त्या गुणमय्यात्ममायया वृणीहि कामं नृमयन्मनोगतं मत्तस्त्वमौता नभते विशङ्कितः वरं वरार्क अम्बुजनाभपादयोः अनन्तरं त्वां वयमङ्कशश्रमा स राजराजेन वराय चोदितो ध्रुवो महाभागवतो महामतिः हरौ सव्रे चलितां स्मृतिं यया तरत्ययत् ेन धुरत्ययं तमः तस्य प्रीतेन मनसा तां दत्त्वैडविडस्ततः पश्यदोन्धर्धतेशोऽपि स्वपुरं प्रत्यपद्यत अतायजत यज्ञेसं क्रदुभिर्भूरि दक्षिणैर्द्रव्यक्रिया देवतानां कर्म कर्मफलप्रदं सर्वात्मनि यच्युते सर्वे देवौ गां भक्तिमध्वहन् दतर्षात्मनि भूतेषु तमेव अवस्थितं विभुं तमेवं शीलसम्पन्नं ब्रह्मण्यं दीनवत्सलं गोप्तारं धर्मसेतोनां मेनिरेपितरं प्रजाः षट्त्रिंशत्वर्षसाहस्रं ससा सशितिमण्डलं भोगै कुर्वन् अभोगैः अशुभक्षयम् एवं बहुसभं कालं महात्मा विचलेन्द्रियः त्रिवर्गौ नीत्वा पुत्राया धान् नृपाशनं मन्यमानयितं विश्वं माया रचितम् आत्मने आत्मस्तैर्यपत्य सुहृतो बलवृद्धकोशम् अन्तःपुरं परिविहारभुवशरं याग भूमण्डलं जलति मे कलमाकलय्य कलोभसृष्टमिति स प्रययौ विशाला तस्यां विशुद्धकरणशिवर्विगाह्य भत्वासनं चितमरुन्मनसा स्थूले धार भगवत्प्रतिरूपयेवध्यायन्स्तधव्यवहितो व्यसृजत्समादौ भक्तिं करो भगवति प्रवहन्नजस्रम् आनन्दभाष्पकलया मुहुरर्ध्यमानः विक्लिद्यमाना हृदयः पुल काचिदाङ्गो नात्मानम् तत्रानुदेवप्रवरौ च दुर्भुजौ श्यामौ गिशारौ वरुणां भुजे क्षणौ पितावष्टभ्यगतां सुवाससौ किरीटहाराङ्गतचारुकुण्ठलौ विज्ञायतावुत्तमगायकिङ्करा पार्षत्प्रधानाविति संसदाञ्जलिः तं कृष्णपादापि निविष्टचेतसं भद्धाञ्जलिं प्रश्रयणं रघन्तरं सुनन्दनन्दौ उपश्रुत्य सुस्मितम् प्रत्योचतुः पुष्करनाभसम्मतौ सुनन्तनन्तौ वोचतु भो भो राजन् सुभद्रं भवान् देवं मतितृपन् जगद्धातु आवां देवस्य सार्ङ्गिणः पार्श्वता विकसम्प्राप्तौ नेतुम् त्वां भगवत्पदम् सुधुर्जयम् विष्णुपदम् जिदम् त्वया यत्सूरयो प्राप्य विसक्षते परम् आदिष्ट्य तच्छन्द्रति वाकराधयो गृहार्षधार परियन्ति अनासितं ते भितृभिः अन्यैरभ्यङ्गः कर्हि आदिष्टजगतां वन्द्यं तत् विष्णोः परमं पदम् एतत् विमानप्रवरम् उत्तमश्लोकमौलिना उपस्थापितमायुष्मन् अधिरोढुं त्वमर्हसि मैत्रेय उवाच निसंयवैकुन्त मधुष्युतं वाच मुरुक्रमप्रियः कृदाभिषेककृतनित्यमङ्गलो मुनीन् प्रणं ग्यासिषमभ्यवादयत् परिद्याभ्यर्च धिष्ण्याघ्रयम् पार्षदौ अभिवन्द्य च इये च ददधिष्ठातुं बिभ्रद्रूपं हिरण्मयं ततोनपातः पुत्रो ततः शान्तगमागतं मृत्योर्मूर्तिं पथं दत्वा आरुहोदाद्भुतं गृहं तथा धुन्दुभयो नेतोर्मृदङ्गपणवादयः कुसुमवृष्टयः स च स्वर्लोकमारोष्यन् मुनीतिं दीनां यासे धिविष्टपम् इति तस्य व्यवसायशुरोत्तमो दर्शयामासतुर्देवीं पुरो गच्छति तत्र तत्र प्रशंसद्भे पथिवैमानिकैश्वरैरवकीर्यमाणो ददृषे कुसुमयिक्रमसो ग्रहान् त्रिलोकीन् देवयानेन सोऽव्रजमुनिनपि परस्तात्यद्रुवगतेर्विष्णो पथम् अताभ्यगाद् यत्प्राजमानं स्वरुचैव सर्वतो लोकास्त्रयो ह्यनु विभ्राजन्तयेते यन्ना व्रजन्तुषु येनग्रहा व्रजन्ति भद्राणि चरन्ति ये निशं शान्तः शुद्धा सर्वभूतानुरञ्जनाः यान्द्यज्ञसा अच्युतपदम् अच्युतप्रियभान्धवाः इत्युत्थान्नभतः पुत्रो ध्रुवकृष्णपरायणः अभूत्रयाणां लोकानां चोटामणिरिवामलः गम्भीरवेगोनिमीषं ज्योतिषां चक्रमाहितं यस्मिन् मेढ्यामि भगवां गणः महिमानं विलोक्या नारतो नारथो भगवान् ऋषिः आदौद्यं विदुतन् श्लोकान् सत्प्रेगायत् प्रचेतसां नारथ ऊचाम् नूनं सुनीते पदिदेवताया तपःप्रभावस्य सुतस्य तां गतिं दृष्ट्वाभ्युपायानपि वेदवादिनो नैवातिगन्तुं प्रभवन्ति किं नृपाः यः पञ्चवर्षो गुरुतारवाक्सरे भिन्नेन यातो हृदयेन दूयत वनं मदादे सकरोजितं प्रभुं जिगाय तद्भक्तगुणैः पराजितं यक्षत्रबन्धुर्विवितस्याधिरूढम् अन्वारुरुक्षेतभिवर्षभोकैर्षट्पञ्चवर्षो यदहोऽपि रल्पैर् प्रसाद्य वैकुण्ठमवाप तत्पदं मैत्रेय एतत्ते विहितं सर्वं यद्भ्रष्टोऽहमिह त्वया ध्रुवस्योद्धामयश चरितं सम्मतं सतां धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनम् अहत स्वर्ग्यं द्रव्यं सौमनस्यम् प्रस्यम् अगमर्षणम् श्रुत्वैतश्रद्धया भीष्णम् अच्युतप्रियचेष्टितं भवेद्भक्तिर्भगवति यया स्यात् क्लेशसंक्षयः महत्वमिच्छतां तीर्थं श्रोतुः शीलादयो गुणाः यत्र तेजस्तधिश्चूनां मानो यत्र मनस्विनाम् प्रयतकीर्तयेत् प्रातः समवाये द्विजन्मनां सायं च पुण्यश्लोकस्य ध्रुवश्च चरितं मकथ पौर्णमास्यां सिनीवाल्यां द्वादश्यां च पणे तवां दिनक्षये व्यतीपाते शङ्क्रमे अर्कदिनेऽभि श्रावये श्रद्धानानां तीर्थपादपादाश्रयः नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यते ज्ञानम् अज्ञातत्त्वाय यो तध्या सत्पथे मृतं कृपालो दीननाथस्य देवास्तस्यानुगृह्णते इत्थं मया विहितं कुरु ध्रुवस्य विज्ञातविशुद्धकर्मणः हि त्वार्भगक्रीटनगानि मातु गृहं च विष्णुं शरणं यो जगाम इति श्रीमद्भगवते महापुराणे चतुर्थस्कन्ते ध्रुवचरितं नाम द्वादशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द